अथ एकादशस्कन्धः गर्भिणीरूपसाम्बेन विप्रलब्धा महर्षयः मुसलात्कुलना शस्यादिधिशक्त्वा ययोर्वनं चूर्णिदो मुसलः सन्धौ क्षिप्तो नानाविधोऽ भवद चूर्णावशिष्टखण्डस्तु व्याधेशोऽशल्यदामवद वसुदेवेन सम्पृष्टो मोक्षहेतुमनुत्तमं नारदो वर्णयामास संवादं निमियोगिना वृषभस्य सुधाः प्राज्ञा योगिनो निमिना वृदान् प्रश्नान् श्रुत्वा परं हर्षमापन्नाः प्रोजुरुत्तमं भगवत्यर्पितं कर्म मोक्षस्य साधनम् उत्तमो भगवद्भक्तस्तत्त्वज्ञः समदर्शनः माया भगवदशक्तिर्जगत्सृष्ट्यादिसाधनं तस्या निवृत्तिस्तत्त्वस्य ज्ञानात् साधनपूर्वकाद मागाद्यविषयं सर्वभासकं तत्त्वमुच्यते निष्कामेन कृतं कर्म पूजास्तोत्राधिकम् महद मत्स्यादयोवतारास्युस्तोत्रेणाशुफलप्रदाः अभजन्तो वासुदेवमधो गच्छन्ति तामसाः ध्यानेन क्रदुना वेदतन्त्राभ्याम् गुणकीर्तनैः युगभेदेन गोविन्दस्य व्यदे कुशलैर्नृभिः कलेर्गुणो महान्यत्र कीर्तनेन कृतार्थता लभ्यते मनुजै पुण्यतीर्थस्नानादकल्मषैः आर्षभाणाम् निमेच्छेदि संवादम् नारदेरिदम् वसुदेवो देवगी च श्रुत्वा विजफतुर्भ्रमम् दृष्टोत्पादान् भयात् सर्वान् प्रभासं गन्तुमुद्यतान् वीक्ष्योद्धवो भक्तवर्यकृष्णमेकान्त आगमद पादयोः सम्प्रणम्यासौ भवान् वै पुरुषोत्तमः नाशयाद्य ममाज्ञानमिति प्रार्थयदच्युदम् प्रार्थितो भक्तवर्येण शान्तेन मधुसूदनः शास्त्रसारम् समुद्धृत्य कृपयो वा दिश्यत् स्फुटम् स्वबुद्ध्या वीक्ष्य तत्र गुणागणान् शास्त्रीयानेव निश्चित्य समशान्तो भवेन्नरः अत्रोक्त्वा यतवे स्पष्टं दत्तात्रेयेण गुणदो श्रालोकसिद्धा स्वस्यानुभवगोचरः क्षमोपकारौ धरणेरश्वं च समीरणाद असंगं व्यापकत्वं कादभ्यो दद्भ्यो अग्नेरा अग्निराकारराहत्यं चन्द्रादात्मा विनाशिदा भेद माउपाधिकं सूर्याज्जीवानां संगृहीतवान् नैश्चल्यम् चाप्य जगरासमुद्रा निर्विकारदाम् पिङ्गलायाश्च नैराश्यं बालाम् साम्यमवागमम् रूपगन्धरसानाञ्च चा दोषं च स्पर्शशब्दयोः पदङ्गभृङ्गमीने हरिणेभ्यो गृहीतवान् परिग्रहे तु कुरराद्गृहसङ्गे कपोततः लोभे मधुग्नो विपद मगृह्णां परिशील्य च एकाकित्वं च वलयात् कीडाध्यानात् तदात्मदाम् एकाग्र्यमिषुकारा च सर्पा निरभिमानताम् बाह्यसाधनराहित्यम् जगत्सृष्टौ परात्मनः ऊर्णनाभे सकाशाद्वै सम्यग् निर्नी विचार्येद्धम् शिक्षितया बुद्ध्या क्षेममवाप्नुहि इत्युक्तो योगिनाथेन यदुर्मोक्तो गमत्पदम् वर्णाश्रमपुराचारा नृणाम् श्रेयो विवर्धकाः निष्कामेन यथा शक्तिकृता बन्धनिवर्तकाः कर्मणा शुद्धचित्तस्य शुद्ध वैराग्यम् जायते दृढम् ततो भक्तिर्भगवति जायते जा सर्वमे दन्महत्सङ्कात् सर्वदेहिनाम् अज्ञानमूलकं दुःखं ज्ञानादेव विनश्यदि देहाभिमानरहितो ज्ञानी स्वप्नोद्धितो यथा स्वप्नम् पश्यन्निवाज्ञानी देहेखं मम गां भजन् शास्त्राहाराधिभिशुद्धैः सत्वं संवर्धयन् शनैः तद्वृद्ध्या ज्ञानवान् भूत्वा स्वतन्त्रो विचरे ऐक्याध्या सा चिज्जडयोर्दुःखम् सर्वम् भवेन्दृणाम् तयोर्विवेके सत्त्वस्य ज्ञानात् दुःखम् विनश्यति हंसो यथा क्षीरनीरे संवृक्ते विभजे तथा चिज्जडावपि संपृक्तौ विचराद्विभजेद्बुधः इमर्थं हजिर्हंसस्वरूपी ब्रह्मणे वद सनकादि कृतप्रश्नसारमोहिदचेदसे यज्ञादीनां साधनानाम् भक्ति योगस्त्वनुत्तमः भक्तिैव लभ्यते सर्वम् पुरुषार्थचतुष्टयं रमणीयमुखाम्भोजं ललितापाङ्गसुन्दरं पीताम्बरं कनश्यामं रूपं ध्यायन् विमुच्यदे वेदेन सुगुणध्यानादाकाशगमनादिकाः भवन्ति सिद्धयो दिव्या न कुर्यादासुकामनाम् अनुष्ठादुमशक्तिश्चेत् सर्वत्रैश्वरभावनां द्यया विभूदयो युक्तदा ज्ञानैश्वर्यबलादिभिः विषये शुप्रवृत्तानां कर्मयोगशुभप्रदः विरक्तानां मुमुक्षूणां ज्ञानयोगप्रगीर्दिदः क्षुव्यभाय्यस्तुष्टिपुष्टि यथा काराद्भवन्ति वै वैराग्यभक्तिज्ञानानि भगवद्भजनात् तदा नश्येत्सर्वं पापजातं भजनाच्छ्रवणादिकाद ज्ञानिनामात्मनिष्ठानां कर्तव्यं नास्ति किञ्चन मार्गान्निष्कामकर्मादीन् हित्वा क्षुद्रसुखेप्सवः कामक्रोधपरालुब्धापदन्ति नरके वशाः अनात्मभूततत्वानां गणनेनास्ति चादरः यथा यथोक्तं तत्त्वज्ञैरविरोधस्तदाग्रहे निन्दा किंसावमानेषु सकलं तत्त्वनिश्चयात् कर्तव्यमिति भिक्षोस्तु चरित्रं समवर्णयद कश्चिद् भिक्षुस्ताडितो विनिमित्तनादयः मन एवेदिरुद्ध्वा तत्स्वस्थप्रापरं पदम् ब्रह्मणो जगत्सृष्टिराकाशादिक्रमेण तु वैपरीत्येन भूम्यादिक्रमेण प्रलयो भवद सुखं ज्ञानं च वैराग्यं सत्त्वोद्रेकाद् भवन्ति सत्त्व वृद्ध्यै च शास्त्रीयानुपायानाश्रयेन्नरः असाधु सङ्गधन्तोषं वर्णयित्वा पुरुरवाः समाहितो भवत्तस्मान् महदां सङ्ग उत्तमः वैदिकं तान्त्रिकं मिश्रं हरेराराधनं शुभं ज्ञानं साक्षान्मोक्षहे दुर्भक्तिः सर्वफलप्रदाम् यदि प्रोक्तं भगवदा शास्त्रसारमनुतमं गृहीत्वा पादयोर्नत्वा भवदुद्धवः मत्तत्त्वं मत्समो भक्तख्यापयन् वर्तदाम्भुवि युद्धं कृष्णस्य सङ्कल्पान् न उद्धवं गत्वा प्रभासं यदवो भुक्त्वा पीत्वा च वारुणीं परस्परमोहान निहदाश्चाभवन् क्षणाद रामो ज्ञात्वा कृष्णहार्दं वैकुण्ठं प्रथमं व्ययौ कृष्णसरस्वतीरे कृद पद्मासनोऽवसद ब्रह्मते जख्यापनार्थं व्याधेन शुगदाडिदः दत्त्वा स्वर्गपतिं तस्मै दारुकम् सान्द्वयद ब्रह्मादिभिः प्रार्थ्यमानस्त्रिदशैः पुष्पवर्षिभिः अन्तर्हितः क्षणाल्लोकम् वैकुण्ठम् निजमापसः युद्धम् कृष्णस्य चाचित्रमद्भुतम् पावनाशनम् वर्णितं श्रवणानृणाम् पुरुषार्थप्रदम् शोभम् यदि एकादशस्कन्धः